अवश्यन्तैर्निकर्तव्यमस्माकम् तत्प्रियैषिभिः तेऽप्यस्मासु प्रियुञ्जीरन् प्रच्छन्नान्सु बहुंश्चरान् आचक्षीरंश्च ना ज्ञात्वा ततः पूतिकामिवसोमस्य तथेदम् क्रियतामिति अथवानडुहे राजन साधवे साधुवाहिने वाहिने सौहित्यदानादे तस्मादेन सह प्रतिमुच्यते तस्माच्छत्रुवधे राजन् क्रियतान्निश्च यस्त्वया क्षत्रियस्य हि सर्वस्य नान्यो धर्मोऽस्ति संयुगात् इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमन पर्वणि पञ्चत्रिंशोऽध्यायः